अम्बिके तव पौत्रस्य दुर्नयात् किल भारताः सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति न श्रुतम् तत्कौसल्यामि मामार्ताम् पुत्रशोकाभिपीडिताम् वनमादाय भद्रं ते गच्छामि यदि मन्यसे तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्यसुव्रता वनं ययौ सत्यवती स्नुषाभ्यां सह भारता ताः सुघोरं तपस्तप्त्वा देव्यो भरत सत्तमा, देहं त्यक्त्वा महाराजा, गतिमिष्टां ययुस्तदा वैशम्पायन उवाच अथावन्तो वेदोक्तान् संस्कारान् पाण्डवास्तदा संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम् बालक्रीडासु सर्वासु विशिष्टास्तेजसा जवे लक्षणे भोज्येपा सुविर्षणे भी धर्तराष्ट्र भीमसे सपरिमर्दती हर्षात्क्रीडमान गृह्यजीयते शिस्सु विगृह्य योधयामास पाण्डवैः शतमेकोत्तरम् तेषाम् कुमाराणां महौजसाम् एक एव निगृह्णाति च निगृह्यैनान् विनिहत्य चकर्षक्रोशतो भूमौ घृष्टजानुशिरोंसकान् दशबालाञ्जले क्रीडन् भुजाभ्यां परिगृह्य सः आस्ते स्म सलिले मग्नो मृतकल्पान् विमुञ्चति